मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं तर्टि एय्ट् श्री श्रीगणेशाय नमः मुद्गल उवाच एवं ब्रुवन्तमत्यन्तं मत्सरं क्रोधसंयुधम् वक्रतुण्डप्रसन्नात्मा स्मयन्निव जगादतं वक्रतुण्ड उवाच मा गर्वं गुरुदैत्येश नाहं देवो न ना मानुषः नासुरो नैव ना नागश्च न गन्धर्वो न पर्वतः न ना नाना योनिजो जन्तुर्नाष्ठावरणजस्तथा ब्रह्मरूपोहमानन्दानन्दकारक एव च त्वां हन्दुं मुनिदेवानां स्थापनार्थमिहा गतः हनिष्यामि त्वसन्देह ददेत्यनायकदुर्मदे शिथिलं वरपुण्यं ते साम्प्रतं पापसञ्चयाद नानापापफलार्थस्य दादातेऽहं समागतः अकर्तुं कर्तुमीशं मामन्यथा कर्तुमादराद जानीहि मत्सरत्वं वै किं करिष्यसि तद्वद जीवितुं चेच्छसि प्राज्ञ तदा मां शरणं व्रज स्वस्थाने धर्मविद्वेषं त्यक्त्वा त्वं तु सुखी भव देवादीनां च विद्वेषं त्यक्त्वा तिष्ठसि दैत्यचेत् तदा त्वां न हनिष्यामि जानीहि त्वं मदं मम मुद्गल उवाच वक्रतुण्डवच श्रुत्वा मत्सरो विस्मितो भवत उवाच तं प्रसन्नात्मा भक्ति भावेन यन्द्रितः मत्सर उवाच नमस्तुभ्यं वदमे सकलं प्रभो संशयं चिन्तितं पूर्वं हृदिस्थं गणनायक यदि सगुणो नासि निर्गुणोऽपि न वर्तसे ब्रह्मरूपोऽसि सर्वेश तदाकारधरकथम् अन्यच्च त्वमहाभागब्रह्मभावेन संस्थितः सुरासुरः समं ब्रह्मकथमेकं समाश्रितः असुराणाम् निहन्तात्वं सुराणाम् पालकोऽधुना यदमे संशयं ब्रह्मन् चेतुमर्हसि विघ्नप मत्सरस्य वच श्रुत्वा वक्रतुण्डः प्रतापवान् उवाच तं महावीरं भावं दृष्ट्वा हृदि स्थितम् वक्रतुण्ड उवाच शृणु मत्सर त्वया बुद्धिविशारद तत्सर्वं कथयिष्यामि संशयच्छेदनायते अखिलं ब्रह्मरूपेण मया सृष्टं चराचरं लीलार्थं बन्धहीनेन स्वधर्मयुतं परम् पुरुषप्रकृतिभ्यां तत् पाल्यते ह्रियते मया तयोर्हृदि स्थिते नैव चिन्तामणिस्वरूपिणा सर्वेषां चित्तवृत्तेश्च चालकोऽहं नसंशयः संशयः मदात्मशगं सर्वं वरुददे दैत्यपुङ्गव यदा त्यक्त्वा देवगणेश्वराः दैत्यानां निधनार्थं च यदन्ते मूलनाशकाः तदा दैत्यहृदिस्थोऽहं तपसि प्रेरकोऽस्म्यदः दैत्या, प्रेरको दैत्या कुर्वन्ति च तपो देवानां प्रजिकांसया तपसावरलाभेन देवान् क्नन्ति महाबलाः तदस्ते सततं देवा सत्ताहिना भवन्दि वै ततोऽहं देवः सङ्घानां विपरीतो न संशयः भवामि चासुराणां वै सिद्धिदामहासुरा यदि दैत्यामहादुष्टास्त्यक्त्वा घ्नन्ति स्वधर्मकं देवान देवान्मूलविहीनांश्च कर्तुमिच्छन्ति दानवः तदाहं देवरूपेण तेषां हृदिसमास्थितः छिद्रं प्रकाशयाम्यादौ हनने दैत्यरक्षसां ततस्तेनैव देवेन्द्रा मार्गेण सुरद्विषः क्नन्दिमत्सरते सर्वं कथितं मे चरित्रकं यदि स्वहृदये देव निश्चयं कुर्वदे परं दैत्यानां तपसां विघ्नं कर्तव्यमिति साम्प्रतं तदाकं वरदाता च भवाम्यसुरनायक दैत्येभ्यो नात्र सन्देहो देवगर्वप्रहारकः यदि दैत्या दैत्यामहाभागा देवैर्जादा दुरासदाः तदाहं दैत्यनाशाय भवामि तनुधारकः यदा दैत्याश्च देवाश्च स्वस्वधर्मपरायणाः तदा कं ब्रह्मभावेन स्तिदस्तेषां हृदिह्यहो त्वया प्रपीडिता देवास्त्यक्त्वा धर्मं स्वभावजम् अधस्त्वां दैत्यराज महामते। इत्युक्त्वा निजरूपं तद्दर्शयामास विघ्नपः बिन्दुमात्रे ब्रह्मणि स्वे संस्थितं सुन्दरं मुने वक्रतुण्डप्रसादेन तस्य दर्शनजेन फलेन दैत्यराजोपि दिव्यं चक्षुरवाप्तवान् तेनैव चक्षुषादेन दैत्येन परमाद्भुतं दृष्टं रूपं गणेशस्य ब्रह्माकारं प्रजापदे ननूनम ना नाधिकं तत्र नसमं ना समं चात्मना न चतुष्पादमयं ब्रह्मपादहीनं स्वभावदः न देहो देख्यत्र च सगुणो निर्गुणो न नमाया न माया मायिको भादिवक्रतुण्डो गजाननः देहं सगुणरूपं च निर्गुणमस्तकं मुने गजवक्त्रमयं तेन दृष्टं भिन्नं प्रभावतः तयोर्योगकरसाक्षात् वक्रतुण्डः प्रतापवान् संयुक्तो वयवाद्यैश्च ज्ञादो दैत्याधिपेन सह तदस्तं नचेदसा प्रणनामाध परया भाक्रिया तुष्टावपरया भक्र्या बधाञ्जलिपुडोऽसुरः मत्सरासुर उवाच नमामि वक्रतुण्डं च चतुष्पादं च दुःपरं चतुर्देहविहीनं च बिन्दुमात्रे व्यवस्थितं साकारं च निराकारं मायारूपधरं प्रभुं नमामि मायिनं तं च मायाहीनस्वरूपकम् जगन्मयं च तद्धीनं सर्वकामप्रपूरकं ब्रह्मभूयप्रदं चैव नमामि गणनायकं सिंहारूढं च दुर्बाहुं विघ्ननाशं नमामि च सिद्धिबुद्धिपदिं चैव सिद्धिबुद्धिप्रदायकम् अनन्तलीलया युक्तं लीलाहीनं नम नमामि तम् अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदि स्थितं वेदान्तवेद्यं सज्यो दुर्ज्यो दिशामपि भासकं नमामि सच्चिदानन्ददेहरूपं गजाननं योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् भावा भावाभावमयं देवं नमामि भववर्धितं सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुं नमामि वक्रतुण्ठाख्यं ब्रह्म ब्रह्माधिपं विभुम् अहो भाग्यमहोभाग्यं येन दृष्टो गजाननः सर्वाकारनिराकारहीनोऽयं वक्रतुण्डकः शरणं ते प्रपन्नोऽस्मि पाहि मां प्रवणं त्वत्पदे नित्यम् संसारोत्तारणैषिणम् एवं स्तुत्वा वक्रतुण्डं पादयोर्निपपादः पुनः पुनः प्रणम्यासौ बद्धाञ्जलिपुटस्थितः स दृष्ट्वा तादृशम् दैत्यम् भक्प्रियुक्तम् गजाननः जगाद तम् महाभागम् भक्तेशो भावदोषिदः वक्रतुण्ड उवाच मत्सरत्वद्विनाशाय कुपिदोऽहम् न संशयः च नेच्छामि वृणुवाञ्छिदम् इदं त्वया कृतं स्तोत्रं मत्प्रीतर्वर्धनं महद महैश्वर्यायुरारोग्यदायकं धनधान्यदं पुत्रपौत्रकलत्रादिनासम्बत्करं परं धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति मुद्गल उवाच वक्रतुण्डवच श्रुत्वा मत्सरो भक्तिसंयुधः जगादवजनं तत्र वक्रतुण्डं कृताञ्जलिः मत्सर उवाच प्रसन्नो यदि सर्वे श देयो वरो यदि सुदृढां च तदा भक्तिं त्वदीया देहि विघ्नप अन्यं त्वं मे वरं देहि त्वद्भक्तास्ते जमे प्रियाः स्थानं देहि तथा वृत्तिं यो प्रभो मत्सरस्य वच श्रुत्वा वक्रतुण्डस्तमब्रवीद अचलापदि मे स्वस्वधर्मरथान् जन्तूं स्तान् रक्षस्व च मत्सर मदीयान् यत्नतः मदीयमूर्तिपूजा च यत्रादौ स्मरणं भवेद् सर्वारम्भेषु तत्र त्वं मा विघ्नं अन्यत्र सर्वभावेषु कर्मज्ञानादिकर्तृषु आसुरेणैव वर्तस्व फलं त्वयासुरा त्वयासुर तेषाम् हृदि समाविश्य कुरुराज्य महामदे मद्भत्यादिषु भावेषु दासवत्वम् सदा भव एवमुक्तो महा समुवाचः प्रणिपत्य गणेशानं हर्षयुक्तेन चेतसा ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे कण्डे वक्रतुण्डचरिते वक्रतुण्डविजयो नामाष्ट त्रिंशोऽध्यायः ओ